अथ त्रिनवतितमः सर्गः सप्रविश्य सभाम् राजा दीनः परमदुःखितः निशसादासने मुख्ये सिंहः क्रुद्ध इव श्वसन् अब्रवीच्च सतान् बलमुख्यान् महाबलः रावणः प्राञ्जलिर्वाक्यम् पुत्रव्यसनकर्षितः सर्वे भवन्तः सर्वेण हस्त्यश्वेन समावृताः निर्यान्तुरथसङ्घैश्च पादातैश्चोपशोभिताः एकम् रामं परिक्षिप्य समरेहं वर्षन्तः शरवर्षाणि प्रावृत्काल इवाम्बुदाः अथवाहम् शरैस्तीक्ष्णैर्भिन्न गात्रम् महाहवे भवद्भिश्वो निहन्तास्मि रामम् लोकस्य पश्यतः वाक्यय राक्षसें राक्षस निर्युस्तेरथ शीघ्रैर्नाक संयुता परघापट्टिषाच शर खरश्वान शरीरातराक्षिपुर्वाणरान्ती वनरा द्रुमा राक्षसा प्रति चिक्षिपु ससंग्रामो सङ्ग्रामो महाभीमः प्रति रक्षसाम् वानराणाम् च तुमुलः समपद्यत ते कदाभिश्च चित्राभिः प्रासैः खड्गैः परश्वधैः अन्योन्यम् समरे जघ्वस्तदा वानरराक्षसाः एवम् प्रवृत्ते सङ्ग्रामे ह्यद्भुतम् सुमहद्रजः रक्षसाम् वानराणाम् च शान्तम् शोणितविश्रवैः मातङ्गरथ कूलाश्च शरमत्स्याध्वज द्रुमाः शरीरसङ्घाटवः प्रसस्रु शोणितापगाः ततस्ते वानराः सर्वे शोणितौघ परिप्लुताः ध्वज च आप्लुत्याप्लुत्य समरे वानरेन्द्राभञ्जिरे केशान् कर्णललाटम् च नासिकाश्च प्लवङ्गमाः रक्षसाम् दशनैस्तीक्ष्णैर्नखैश्चापि व्यकर्तयन् एकैकम् राक्षसङ्ख्ये शतम् वानरपुङ्गवाः फलिनं वृक्षम् शकुनयो यथा तदा गदाभिर्गुर्वीभिः प्रासैः खड्गैः परश्वधैः निर्जघ्नुर्वानरान् घोरान् राक्षसाः पर्वतोपमाः राक्षसैर्वध्यमानानाम् वानराणाम् महाचमूः शरण्यम् शरणम् याता रामम् दशरथात्मजम् ततो रामो महातेजा धनुरादाय वीर्यवान् प्रविश्य राक्षसम् सैन्यम् शरवर्षम् ववर्ष तु तदा रामम् मेघा नाधिजग्मुर्महाघोरा निर्दहन्तम् शराग्निना कृतान्येव सुघोराणि रामेण रजनीचराः रणे रामस्य ददृशः कर्माण्य सुकराणि ते चालयन्तम् महासैन्यम् विधवन्तम् महारथान् ददृशुस्तेन वैरामम् वातम् यथा छिन्नम् बलम् रामेण ददृशुर्न रामम् शीघ्रकारिणम् प्रहरन्तम् शरीरेषु न ते पश्यन्ति राघवम् इन्द्रियार्थेषु तिष्ठन्तम् भूतात्मानमिव प्रजाः एष हन्ति गजानीकमेष हन्ति महारथा एष हन्ति शरैस्तीक्ष्णैः पदातीन्वाजिभिः सह सर्वे रामस्य सदृशान् अन्योन्यम् कुपिता जघ्नुः सादृश्याद्राघवस्य तु न ते ददृशिरे रामम् दहन्तमपि वाहिनी मोहिताः परमास्त्रेण गाम्धर्वेण महात्मना ते तु रामसहस्राणि रणे पश्यन्ति राक्षसाः पुनः पश्यन्ति काकुत्स्थमेकमेव का महाहवे भ्रमन्तीम् काञ्चनीम् कोटिम् कार्मुकस्य महात्मनः अलातचक्र प्रतिमा नराघवं। नाघव शरीरनासर्चि शरारेका मुकघोषतल निर्घोष तेजो बुद्धिगुण प्रभ दिव्याण पर्यत नि युधिराक्ष दशो राम चक्रलचक्रम प्रजा अनेकं दश साहस्रम र अष्टादशसहस्राणि कुञ्जराणाम् तरस्विनाम् चतुर्दशसहस्राणि सारोहाणाम् च वाजिनाम् पूर्णे शतसहस्रे द्वे राक्षसानाम् पदातिनाम् दिवसस्याष्टभागेन शरैरग्निशिखोपमैः हतान्येकेन रामेण रक्षसाम् कामरूपिणाम् ते हताश्वाहतरथाः अभिपेतुः पुरीम् लङ्काम् हतशेषा निशाचराः हतैर्गजपदात्यश्वैस्तद्बभूवरणाजिरम् आक्रीडभूमिः क्रुद्धस्य महात्मनः ततो देवाः सिद्धाश्च परमर्षयः साधु तत्कर्म समपूजयन् अब्रवीच्च तदा प्रत्यनन्तरम् विभीषणम् च धर्मात्मा हनूमन्तम् च वानरम् जाम्बवन्तम् हरिश्रेष्ठम् मैन्दम् द्विविदमेव च एतदस्त्रबलम् दिव्यम् मम वात्र्यम्बकस्य निहत्कताम् राक्षस राजवाहिनीम् रामस्तदा महात्मा अस्त्रेषु शस्त्रेषु जितक्लमश्च संस्तूयते देवगणैः प्रहृष्टैः शे श्रीमद्राणे वाक्ये युद्धकांडे त्रिनतित सर्ग